अथ चतुर्विंशम् दशकम् हिरण्याक्षे पौत्रिप्रवरवपुषादेव भवता हते शोकक्रोध ग्लपित धृतिरेतस्य सहजः हिरण्य प्रारम्भः कशिपुरमराराति मुररिपो विधातारं घोरम् स तपसित्वा न चिरतः पुरः साक्षात्कुर्वन् सुरनर मृगाद्यैरनिधनम् लब्ध्वा दृप्तो जगदिह भवन्नायकमिदम् परिक्षुन्दन्निन्द्रादहरस दिवम् त्वामगणयन् निहन्तुम् त्वाम् भूयस्तव पदमवाप्तस्य चरिपोर्बहिर्दृष्टैरन्तर्दधिथ हृदये सूक्ष्म न दन्नुच्चैस्तत्राप्यखिल भुवनान्ते च मृगयन् भियायातम् मत्वा स खलु जित गर्भवसतौ मुनेर्वीणापाणेरधिगत भवद्भक्ति महिमा स वै जात्या सुरारीणाम् हास्यम् तव चरणदास्यम् निज सुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षिरममुम् गुरुप्रोक्तम् चासौ इदमिदमभद्राय दृढमित्यपाकुर्वन् सर्वम् तव चरण भक्त्यैव ववृधे अधीतेषु श्रेष्ठम् किमिति परिपृष्टेथतनये भवद्भक्तिम् वर्याम् अभिगदति पर्याकुलधृतिः गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् अधोपायानस्मिन् व्यतनुदभवत्पादशरणे सशूलैराविद्धः सुबहुमथितो दिग्गज गणैर्मः सर्पैर्दष्टोऽप्यनशन गराहारविदुतः गिरीन्द्रावक्षिप्तोऽप्यहः परमात्मन्नयि विभो त्वयिन्यस्तात्मत्वात् किमपि न निपीडामभजत ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको गुरोक्त्या तद्गेः किल वरुणपाशैस्तमरुणत् गुरोश्च सान्निध्ये स सा पुनरनुगान् दैत्यत नयन् परममपि विज्ञानमशिषत् पिता शृण्वन् बालप्रकरमखिलम् त्वत्स्तुति परम् रुषान्धः प्राहीनम् कुलहतकस्ते बलमिति बलम्मे मे वैकुण्ठस्तव च जगताम् चापि सबलम् स एव अरे क्वासौ क्वासौ सकल जगदात्मा हरिति प्रभुन्ते चलितकरवाळोदिति सुतः अतः पश्चाद्विष्णो न हि कृपात्मन् विश्वात्मन् पवनप्रवासिन् मृडयमाम् माम् इति चतुर्विंशम् दशकम्